चाणक्यनीति अध्यायम् इलेवन् दातृत्वम् प्रियवक्तृत्वम् धीरत्वमुचितज्ञता अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः परित्यज्य परवर्गं समाश्रयेद स्वयमेव लयं यधा राजान्य राजान्यधर्मदः हस्ति स्थूल स्थूलतनुष चाङ्कुशवश किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमहा वज्रेणापि हताः पतन्ति गिरह्य किं वज्रमात्रम् नगास्तेजो यस्य विराजते सबलवान् बलवान् स्थूलेषु कः प्रत्ययः कलौ दशसहस्राणि हरित्यजदि मेदिनीम् तदर्धम् जाह्नवीरोऽयम् तदर्थं ग्राम देवताः गृहाशक्तस्य नो विद्या नोदया मांसभोजिनः द्रव्यलुब्धस्य नो, नो सत्यं स्त्रैणस्य न पवित्रता न दुर्जनः साधु दशामुपैति बहुप्रकारैरपि शिष्यमाणः आमूलशिक्तः पयसा कृतेन न निम्बवृक्षो मधुरत्वमेति अन्तर्गदमलो दुष्टस्तीर्थस्नानशतैरपि न शुध्यति यथा सुराया दाहितं च सत न वेत्ति यो यस्य गुणप्रकर्षम् सतं सता निन्ददिनात्र चित्रम् यथा किरादीकरिकुम्भलब्धा मुक्ताम् परित्यज्य विभर्ति गुञ्जाम् येदु दु पूर्णं नित्यं मौनेन भुञ्जते सहस्रं तै स्वर्गलोके महियते कामक्रोधौ तथा लोभम् स्वादु स्वादुशृंगारुक्रादी से च विद्यार्जय आकष्टफलमूला वनवासर कुरूते सदा कुर श्राद्धमृषि उच्य एकाहारेण सन्तुष्टः षट्कर्म निरगः सदा ऋतुकालाभिगामी च स त्विज उच्यते लौकिके कर्मणि रथः पशूनाम् परिपालकः वाणिज्यकृषिकर्मा यः वैश्य उच्यते लाक्षादितैलनीलीनाम् कौसुम्भमधुसर्पिषाम् विक्रेदा मध्यमांसानां स विप्रशूद्र उच्यते परपर्यविहन्ता च दाम्भिकस्वार्थसाधकः चली मृदु विप्रो मार्जार उच्यते क्वापी कूपतडागानां माराम सुरवेश्मनाम् उच्चेदने निराशङ्गस्य विप्रो म्लेच्छ उच्यते देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् निर्वाक सर्वभूतेषु पिप्रच्छान्ताल उच्यते देयम् भोज्य धनं धनम् सुकृतिभिर्नो सञ्चयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपदेरद्यापि कीर्तिस्थिता अस्माकं। मधुदानभोगरहितं नाथं चिरात्सञ्चितं निर्वाणादि नैजपादयुगलं दर्शन्त्यहो मक्षिकाः ॐ